द्व्यधिकशततमोऽध्यायः वैशम्पाय न उवाच हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव पालयामास तत्राज्यम् सत्यवत्याम् मते स्थितः सम्प्राप्त यौवनम् दृष्ट्वा भ्रातरम् धीमताम् वरः भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् अथ काशिपदेर्भीष्मः कन्यास्तिस्रोप्सरोपमाः शुश्रावसहिता राजन् वृण्वाना वै स्वयं वरम् ततः सरथिनाम् श्रेष्ठो अधेनैकेन शत्रुचित् जगामानुमते मातुः पुरीं वा तत्र राज्ञः समुदितान् सर्वतः समुपागतान् तदर्शकन्यास्ताश्चैव भीष्मः कीर्त्यमानेषु राज्ञाम् तु तदा नामसु सर्वशः एकाकिनम् तदा भीष्मं वृद्धं शान्तनुनन्दनम् सोद्वेगा इव दृष्ट्वा कन्याः परमशोभनाः अपाक्रामन्तताः सर्वा वृद्ध चिन्तया वृद्धः परमधर्मात्मा वलीपलितधारणः किम् कारणमिहा यातो निर्लज्जो भरतर्षभः मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि इत्येवम् प्रब्रुवन्तस्ते हसन्ति स्म नृपाधमाः वैशम्पायनोवाच क्षत्रियाणाम् भीष्मश्च क्रोधभारत भीष्मस्तदा स्वयम् कन्या वरयामासताः प्रभुः उवाचमहीपालान् राजञ्चलद निःस्वनः प्रथमारोप्यताः कन्या भीष्मः प्रहरताम् वरः आहुयदानम् कन्यानाम् गुणवन्भ्यः स्मृतम् बुधः अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि प्रयच्छन्त्यपरे कन्या मिथुनेन गवामपि वित्तेन कथिते नान्ये बले नान्येऽनुमान्य च प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते आर्षं विधिम् पुरस्कृत्य दारान्विदन्ति चापरे अष्टमम् तमथो वित्त विवाहम् कविभिर्वृतम् स्वयम्वरन्तुराजन्याः प्रशंसन्त्युपयान्ति च प्रमथ्यतुसृतामाहुर्ज्यायसीम् धर्मवादिनः ता इमाः पृथिवीपाला जिहीर्ष्यामि बलादितः ते यतध्वम् परम् शक्या विजयायेतराय वा स्थितोऽहम् पृथिवीपाला युद्धाय कृतनिश्चयः एवमुक्त्वा महीपालान् काशिराजम् च वीर्यवान् सर्वाः कन्याः सकौरव्यो प्रथमारोप्य च स्वकम् आमन्त्र्य च सतान् प्रायाच्छीघ्रम् कन्याः प्रगृथयताः ततस्ते पार्थिवाः समुत्पे समुत्पेतुरमर्शिताः संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच्छदान् तेषामाभरणान्याशु त्वरितानाम् विमुञ्चताम् आमुञ्चताञ्च वर्माणि सम्भ्रमः समानभूत् ताराणामिव सम्पातो बभूव जनमेजय भूषणानाम् च सर्वेषाम् कवचानाम् च सर्वशः सवर्मभिर्भूषणैश्च प्रकीर्याद्भिरितस्ततः सक्रोधामर्षजिह्मभ्रू कषायीकृतलोचनाः सूतोपकृप्तान् रुचिरान् सदस्वैरुपकल्पितान् अधानास्थाय ते वीराः सर्वप्रहरणान्विताः प्रयान्तमथ कौरव्यमनुषस्त्रुरुदायुधाः ततः समभक्त्युद्धम् तेषाम् तस्य च भारत एकस्य च बहूनाञ्च तुमुलम् लोमहर्षणम् ते त्विषून् दश साहस्रांस्तस्मिन् युगपदक्षिपन् अप्राप्तांश्चैव तानाशु अच्छिश्वर्षेण महता लोमवाहिना ततस्ते पार्थिवास्वतवार ववृषुशर वर्षेण वर्षेणेवाद्रिमुद सतम बाणमय वर्षं शररावास ततः सर्वान्मी पाला पर्यद्याजन्व्याधपंच स च तान् प्रतिविव्याध द्वाभ्याम् द्वाभ्याम् पराक्रमन् तद्युद्धमासीत्तुमुलम् घोरम् देवासुरूपमम् पश्यताम् लोकवीराणाम् शरशक्तिसमाकुलम् सधनूंषिद्ध्वजाग्राणि वर्माणि च शिरांसि चिच्छेदसमरे भीष्मश्चतशोधसहस्रशः तस्याति पुरुषा नान्याल्लाघवम् रथचारिणः रक्षणम् वरः कन्याभिः सहितः प्रायाद् भारतो भारतान् प्रति ततस्तं पृष्ठतो महारथः अभ्यगच्छद भीष्मं शान्तनवं ऋणे वारणं जघनेभिन्दन् दन्ताभ्याम् अपरो यथा वासितामनुसंप्राप्तो यूथपो बलिनां वरः स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाः सपार्थिवः शाल्वराजो महाबाहुरमर्षेण प्रचोदितः ततसः पुरुषव्याघ्रो भीष्मः परबलार्दनः तद्वाक्याकुलितः क्रोधात् विधूमोऽग्निर्विज्ज्वलन् विततेषु धनुष्पाणिर्विकुञ्चित क्षत्रधर्मम् समास्थाय व्यपेतभयसम्भ्रमः निवर्तयामासरथम् शाल्वम् प्रतिमहारथः निवर्तमानम् तम् दृष्ट्वा राजानः सर्व एव ते प्रेक्षकाः समपद्यन्त भीष्मशासमागमे तौ वृषा विवनर्तन्तौ बलिनौ वासितान्तरे अन्योन्यमभ्यवर्तेताम् बलविक्रमशादिनौ ततो भीष्मम् शान्तनवम् शरैः शतसहस्रशः नरश्रेष्ठः समवाकि पूर्वं पूर्वमभ्यर्थितम् दृष्ट्वा भीष्मम् चाल्वेन ते नृपाः विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् लाघवम् तस्य दृष्ट्वा समरे सर्व पार्थिवाः अपूजयन्त स हृष्टा वाग्भिः साल्वम् नराधिपम् क्षत्रियाणाम् ततो वाचः श्रुत्वा परपुरञ्जयः क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत क्रुद्धो या पार्थिवः यावदेनम् निहन्यद्य भुजङ्गमिव